हरि ओम् श्रीसीता रामचन्द्राभ्या नमः अथ श्रीमद्वाल्मीकि रामायणे अयोध्याकाण्ड एकचत्वारिंशर्गः श्रीरामस्य वनगमनेनाम् स पुरस्त्रीणाम् विलापः दुरवासीनां सशोकावस्था च तस्मिन् सु पुरुष व्याघ्रे निष्क्रायमति कृताञ्जलो अष्टशब्दो श्री राम मंत्रे महान अनाथ से जनस दुर्बल से तपस्व योगी स नाथ क्वेशति न ना क्रुध्य भिश्स्थ वर्जयन क्रुद्धा प्रसादय सर्वान्दुख कौसल्या महातेज यथा मातरिवर्तते तथा यो वर्तते स्मासु महात्मा क्वनुगच्छति कैकेय्याकृष्यमाणेन कै राज्ञा सञ्चोदितो वनम् परित्राता जनस्यास्य जगतः क्वनुगच्छति अहो निश्चेतनो राजा जीवलोकस्य संशयम् धर्म्यम् सत्यव्रतम् रामम् वनवासे प्रवर्षति इति सर्वा महेशसा विभक्ता इव धेनवः हृहै चैव दुःखातः स स्वरम् च विचुक्रशुः स तम् मन्तः महीपतिः पुत्रशोकाभिसन्तप्त श्रुत्वा चासीत् सुदुःखितः नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः अकुर्वन्न प्रजा कार्यम् सूर्यश्चान्तरधीयत व्यस्रोचन् कवलान्नागाय गावो वत्सान्न पाययन् पुत्रम् पृथ निजम् लब्ध्वा जननी नाभ्यनन्दतशङ्कोर्लोहिताङ्गश्च बृहस्पति गृहात् सर्वे व्यवस्थिता नक्षत्राणि गताशीषि गृहाश्च गत तेजस विशाखाश्च स धूमा च नभसि प्रचकाशिरे राम्बेवनम् प्रव्रजिते नगरं प्रचालत दिश पर्याय कुल तिमिरेणैव सम्भृतः न गृहो नापि नक्षत्रम् ना ना पचकाशेन किञ्चन अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् आहारे वा विहारे वा न कश्चिदकरोन्मनः शोकपर्याय सन्तप्त सततम् दीर्घमुच्छ्वसन् अयोध्यायाम् जनः सर्व शुक्रोश जगति पतिम् बाष्पर्याय कुलमुखो राजमार्गतो जनः न हृष्टो लि सर्वशोकपरायणः न वार्ते पवनशीतो न शशि सौम्य दर्शनः न सूर्य तपते लोकम् सर्वं पर्याय कुलं जगत् अनर्थिनः सुताश्रीणाम् भर्तारो भ्रातरस्तथा सर्वे सर्वं परित्यज्य राममैवान्वचिन्तयत् येषु रामस्य सुहृद सर्वे ते मूढचेततः शोकभारेण चाक्रान्ता शयनं नैव भेजिरे तत स्वयोध्या रहिता महात्मना पुरन्दरेणैव मही स पर्वतः चालय घोरम् भयशोक दीपिता स नागयोधाश्वगणा ननाथ च इत्याख्ये श्रीमद् रामायणे वाल्मीकि अधिकाव्ये अयोध्याकाण्डे एकचत्वारिंश